श्रीमद्भागवत्महापुराणम् एकादशस्कन्ध सप्तविंशोऽध्यायः चन्दनो शिरकर्पूरकुङ्कुमा गुरुवासितैः सलिलैस्नापयेन्मन्त्रयेत्यदा विभि सति स्वर्णघर्मानुवाकेन महापुरुषविद्ययाम् पौरुषेणापि सुक्तेन सामभिराजनादिभिः वस्त्रोपवीताभरणपत्रस्रगन्धलेपनैः अलङ्कुर्वीत स प्रेम मद्भक्तो मां यथोचितं पाद्यमाचुमनीयं च गन्धं सुमनसोऽक्षतान् धूपदीपोपहासयाणि दद्यान्मे श्रद्धेयार्चकः गुडपायससर्पेशी सस्कुल्यापूपमोदकान् संयावदधि सूपांश्च नैवेद्यं सति कल्पयेत् अभ्यङ्गोन्मर्दनार्दर्शन् दन्ताधाभावाभिसेचनम् अन्यादगीतनित्यादि परवाणी स्यूरुतान्वम् विधिना विहिते कुण्डे मेखलागर्तवेदिभिः अग्निमाधाय परितः समूहेत पाणिनोदितं परेतिर्याथं पर्युक्षेदन्वाधायथाविधि प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षाग्नो भावयेत् मां तप्तजाम्बूनदत्प्रख्यं शङ्खचक्रगदाम्बुजे दशचतुर्भुजं शान्तम् पद्मकिञ्जल्कवाससं पुरत्किरीटकटककटिसूत्रवराङ्गलम् श्रीवत्सभक्षसम्भ्राजत् कौसुभं वनमालिनम् ध्यायन्नभर्त्यम् दारुणेशविशाभिघृतानि च प्रास्याद्यभागावाघारौ दत्त्वा चाद्य प्लुवम् हविः दुह्यान्मूलमन्त्रेण सोदशर्चावधानतः धर्मादिभ्यो यथा न्यायं मन्त्रे श्रेष्ठ कृतं बुध अभ्यर्चाथ नमस्कृत्य पार्श्वदेभ्यो बलिं हरेत् मूलमन्त्रं द्यवेद्ब्रह्म स्मरन्नारायणात्मकम् दत्त्वा चमनमुख्येशं विश्वक्सेनाय कल्पयेत् मुखवासं सर्वभिमत ताम्बूलाद्य मथार्हयेत् उपगायन् गृह्नृत्यन् कर्माण्यभिनयन् मम मत्कथा श्रावय शृण्वन्मुहूर्तं क्षणिको भवेत् तवैरुच्चावचैस्तोत्रैः पौराणैः प्राकृतैरपि स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् तिरोमत्पादयो कृत्वा बाहुभ्यां च परस्परं। प्रपपन्नं पाहि मामि स भीतं मृत्युग्रहाणवात् इति शेषां मया दत्तां स्थिरस्याधाय सादरम् उद्वासयेच्चेदुद्वास्यं ज्योतिज्योतिषि तत्पुनः अर्चादिसु यदा यत्र श्रद्धा मां तत्र चार्चयेत् सर्वभूते स्वात्मने च सर्वात्माहमवस्थितः एवं क्रियायोगपथैः पुमान् वैदिकां तान्त्रिकैः अर्चन्नोभयसिद्धिं मत्तो विन्दत्यभिप्सितां मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कार्ये दृढं पुष्पोद्यानानि रम्याणि पूजायात्रौ सवाश्रितान् पूजादीनां प्रवाहार्थं महापर्व स्वथान्वहं क्षेत्रापणपुरग्रामान् दत्त्वा मस्साष्टितामि यत् प्रतिष्ठया भा सार्वभौमम् सद्मनां भुवनत्रयं पुजादिना ब्रह्मलोकं त्रिभिर्मः सामृतामि यत् मा वेवनैरपेक्षेण भक्तियोगेन विन्दति भक्तियोगं स लभते एवं य पूजयेतमां यसुदन्तां परिदत्तां हरेसुरविक्रयोः मृतिं स जायते विङ्भूं वर्षाणाम् अयुतायुतं कर्तुश्च सारथिर्हेतोः अनुमोदितुरेव च कर्मणां भागिन प्रेत्य भूयो भूयसि तत्फलम् इति श्रीमद्भागवते महापुराणे पारवंश्यां शीतायाम् एकादश स्कन्धे सप्तविंशोऽध्यायः